नारायणीयं दशकं ट्वेण्टि त्रि मीटर् शिखरिणि भगवन्न परोहि दक्षस्त्वत्सेवनं व्यधिदसर्गविवृद्धिकामः आविर्बभुविध तदा लसदष्टबाहुस्तस्मै वरं दधितताञ्जवधूमसिग्नीम् तस्यात्मजास्त्वयिदमीश पुनः सहस्रं श्रीनारदस्य वचः सा तव दोहित्र षष्ट्यादो दो दुहितृभिसृजदकुलौखान्दौभित्रसूनुरतस्य दो दो स विश्वरूपः त्वत्स्तोत्रवर्मिदमजापयदिन्द्रमाजौ देवत्वदीयमहिमा खलु सर्वजैत्रः प्राक्षूरसेन विषये किल चित्रके दुःपुत्रा गृही नृपतिरङ्गिरसः प्रभावाद लब्ध्वैकपुत्रमधतत्र सपत्नी सङ्घैरमुह्य दवशस्तव माययासौ तं नारदस्तु दयालुः सम्प्राप्य तावदुपदर्श्य सुतस्य कस्यास्मि पुत्र यदि तस्य गिरा विमोहं त्यक्त्वा त्वदर्चनविधौ नृपदिं नियुङ्क्त स्तोत्रं च मन्त्रमपि नारदतोध लब्ध्वा तोषाय शशवपुषो ननु विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वाप्यकुण्ठमधिरन्वभजद्भवन्तम् तस्मै मृणालधवलेन सहस्रशीर्षणारूपेण बद्धनुदिसिद्धगणावृतेन प्रादुर्भवन्नचिरतो नुदिभिः प्रसन्नो दत्त्वात्मतत्त्वमनुगृह्य तिरोदधा त्वद्भक्तमौलिरथसोऽपि च लक्षलक्षं वर्षाणि फर्षुलमना भुवनेषु कामम् सङ्गापयन्गुणगणं तव सुन्दरीभिः सङ्गादिरेकरहितो ललितं चचार अत्यन्तसङ्गविलयाय भवत्प्रणुनो नूनं स्वरूप्य गिरिमाप्य महत्समाजे निःशङ्गमङ्गकृतवल्लभमङ्गजारिं तं शङ्करं परिहसन्नुमयाभिषेपे निःसम्भ्रमस्त्वयमयाचिदशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी भक्त्यात्मतत्त्वकथनयि समरे विचित्रं शत्रोरपि भ्रममपास्य गतः पदं ते त्वत्सेवनेन दिदिरिन्द्र द्यतापि तान् प्रत्युतेन्द्रसुहृदो मरुतोभिलेभे दुष्टाशयेऽपि शुभदैव भवन्निषे वा तत्तादृशस्त्वमवमां पवनालयेश सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द